गणेशपुराणम् उपासनाखण्डम् अध्यायम् 59 नैन् राजोवाच कुम्भीपाकाद्विनिसृत्य तेषु यातेषु वैदिवं कमुपायं स कृतवान् कृतवीर्यपिता तदा शक्र उवाच ब्रह्मलोकं जगामाशुदर्शकमलासनम् दुःखितो नारदा श्रुत्वा वंशविच्छेदमात्मनः प्रणम्य तम पृच्छत्स वंशविच्छेदकारणं मम पुत्रोदिधर्मात्मा वदान्यो यत्नकारकः देवतातिथिभक्तश्च मान्यमानयिता भृशम् नानाविधप्रयत्नं स पुत्रार्थं कृतवान् विधे तथापि नाभवत्कस्मात्तस्य पुत्रः सुरेश्वर राज्यं प्रकृति सात्कृत्वा वायुभक्षस्तिदो वने अस्तिमात्रावशेषो स वध्यस्वो वा मरिष्यति जन्मांदरीयं तस्यै नो येन प्रभो तमुपायं दयां कृत्वा वदमे कमलासना। तं प्रापयिष्ये तत्राकं स्ववंशस्य विवृद्धाये। एवं सुललितां वाणीं श्रुत्वो चाच तथा विधिः श्रूयतां तव पुत्रस्य पूर्वजन्मयेरितम् सामनाम् न पूर्वं तत्रैव नगरेण त्यजः दुष्कर्मादितरां यस्य दर्शनं पुण्यनाश्चकृद एकदा तेन लोभेन पथि द्वादशब्राह्मणाः शान्तास्त्यक्तास्तेन गुहान्धरे सर्वं तदीयमादाय निशि स्वगृहमागतः मा कुर्थ्यां स उदये शशिनो नृप गणेशेधि गणेशेऽधि पुत्रमाहूय सत्वरम् अलब्धान्न जलस्तेन सहैव बुभुजे मुदा कालेन तव पुत्रोऽसौ पञ्चत्वमगमन्निः चन्द्रोदये चतुर्थ्यां तु कृष्णायामेव भूभुज अज्ञानकृतसङ्कष्टचतुर्थी व्रतसम्भवाद पुण्याद्विनायकं धाम जगाम सुखदं तु सहा विमानवरमारूढो वीक्ष्यमाणोत्सरो गणैः वैमानिकैस्तुयमानो दिव्यपुष्पैरथार्चितः तेनैव पुण्यशेषेण कृत वीर्याभिधो नृपः तव समापेदे पुत्रत्वमधुना तदखक्षयात्तस्य पुत्र उत्पत्स्यते नख इति ब्रह्मवच श्रुत्वा चकम्पे स नृपोत्तम उपायं पावनाशनं कृतवीर्य पितोवाच ब्रह्महत्या कृतं तस्य पापं कथं विधे तद्वदस्व दयासिन्धो यद्यपि स्यात् सुदुष्करम् ब्रह्मो वाच स छेद्रत्वम् तु सङ्कष्टचतुर्थी सञ्ज्ञकं तव सुधकरिष्यते सम्यक्तदा पापात् प्रमोक्ष्यते राजोवाच कथम् तत्क्रियते ब्रह्मन् कस्मिन्मासे व्रतं शुभे तत्सर्वं वदमे स्वामिन्येन पापम् लयम् व्रजेत ब्रह्मोवाच चतुर्धी भौमवारेदुमाके कृष्णे भवेद्यदि शुभे मुहूर्ते चंद्रे च कुर्यात् प्रारम्भमस्यः दन्तधावनपूर्वाणि स्नानानि चैकविंशतिं कुर्वेदनित्यकर्माणि जपेन्मन्त्रम् ततः परम् निराहारो भवेन्मौनि परनिन्दाविवर्जितः दुष्टकर्मजताम्बूलम् वर्जयेन्नियमेन च वर्जयेज्जलपार्णं च परद्रोहं च पैशुनम् तिलामलककल्केन दिनान्ते स्नानमाचरेद एकाक्षरं षड्वर्णं वा चभेद्वा वैदिकं ममुं गणेशप्रीदयेतस्य नाममन्त्रं यथा विधि ध्यायेत् स्थिरेण मनसा देवदेवं गजाननं मुहूर्तमात्रेण ततः पूजयेद्गणनायकम् उपचारैः षोडशभिर्नैवेद्यैर्विविधैरपि मोदकापूपशष्कुलीलड्डुकैर्वडकैरपि पायसार्विविधैरन्नैर्व्यञ्जनाैर्लेह्यचोष्यकैः भलैर्नाविधैः पूग ताम्बूलैर्दक्षिणादिभिः एकविंशतिधूवाभिर्दीपैश्च कुसुमैरपि चन्द्रोदयेऽर्घ्यदानेन तिथये मन्त्रपूर्वकम् गजाननाय पश्चात्तु चन्द्राय च ततः परं निवेद्यभोजनं नत्वा क्षमाप्य च ततः पुनः ब्राह्मणान् भोजयेद्भक्त्या शक्रिया वा चैकविंशतिं दशद्वादशवाशक्तो दक्षिणाभिस्सुतोषयेद श्रुत्वा ततः स्वयं भुञ्जीतवाग्यदः गीतवादित्रघोषेण शेषां रात्रिं ततो नयेद् एवं मृतं चैकवर्षं कृतं चेद्यत्नतो नृप सर्वपापक्षया तस्य भविता पुत्र उत्तमः अन्यं वा कामं यं यं तं प्राप्नुयान्नरः सर्वसङ्गणनाशस्यत् परचक्राद्भयं न हि शमीमूले जपं स्तिष्ठन्नुपवासपरायणः आचन्द्रोदयपर्यन्तम् व्रतमेतत्समाचरेत अन्धो मूको जडः पङ्गुस्तदीप्सितमवाप्नुयाद दारान् पुत्रान् धनं राज्यं लभदे नात्र संशयः श्रवणादिषु मासेषु कृत लड्वाधिकं पृथक् भक्षे यद्वर्षपर्यन्तं तस्य सिद्धिरनुत्तमा श्रावणे सप्त लड्डूका नभस्येर्दधिभक्षणम् आश्विने चोपवासे दुग्धपनकर्गशीर्षे निराहारम पौषे फाल्गुने फागुनेशर्करा चैत्रमासे पंचगव्यम वैशाखे शतपत्रिका कृतस्य भोजनं ज्येष्ठे आषाढे मधुभक्षणं कृत वीर्यपितोवाच अङ्गारकचदुर्घ्यां तु विशेषोऽभिहिधकुदः वद कृपया ब्रह्मन् प्रश्रया वनतायमे। शृण्वतो न च मे तृप्तिर्गजाननकथां शुभाम् इति श्रीगणेशपुराणे उपासनाखण्डे चतुर्थी व्रतकथनं नामैकोनषष्टितमोऽध्यायः ओम्